हरि ॐ क्षत्रस्यजोनिरति क्षत्रस्य नाभिरसि मात्वांसी मामाहिसीः निखसादव्रतवरुणः पस्तास्मा साम्राज्याय सुक्रतुः मृत्योः पाहि विद्योत्पाहि देवश्चत्वासवितुः प्रसवेश्विनो बाहुभ्यां पूष्णो हस्ताभ्यां अश्विनोमर्भै गजेन तेजसे ब्रह्मवचसायाभिखिञ्चामि सरस्वत्यै भै गजेन वीरजाया नाद्यायाभिखिञ्चामि न सेन्द्रियेण बलाय श्रियै यशसेऽभिषिञ्चामि कोऽसि गमोऽसि कस्मैत्वा काय त्वा सुश्लोकसुमङ्गलसत्यरायन्न का शिरोमे राजा मे प्राणोऽ सम्राटचक्षुर्विराट्रोत्रं जुवामे भद्रं वाङ्महु मनो मन्युः स्वराड्भामोदा अङ्गुलीरङ्गानि मित्रं मे सुहं बाहू मे वनमिन्द्रियस्तौ मे कर्म मम ग्रीवाश्च श्रोणि ऊरु अरत्नीजानुनिर्विशो मेङ्गानि सुभ्रतः नाभिम् विज्ञानं पायु मे पतिभसत् आनन्दानन्दा भण्डौ मे भगः सौभाग्यं वसह जङ्गाभ्यां पद्यान् धर्मोऽस्मि विषि राजा प्रतिष्ठितः प्रतिक्षत्रिय प्रति तिष्ठामि राष्ट्रे प्रत्यश्वे कुप्रति तिष्ठामि गोघु प्रत्यङ्गे प्रतिप्राणे कुप्रति तिष्ठामि पुष्टे प्रतिद्या प्रति वा पृथिव्योः प्रति जग्ने त्रया देवा एकादश त्रयस्त्रिघ्नीषाः सुराधसः बृहस्पतिगुरोहिता देवस्य स सवे देवा देवैरवन्दुमा प्रथमाद्वितीयैर्द्वितीया तृतीयैस्तृतीयाः सत्येन सत्यञ्जन्येन जज्ञो जजुर्भिजुवङ्खिसामभीत् सामाञ्जविरचाः पुरोनुवाक्याभित् पुरोनुवाक्याजाज्ञाभिजाज्या वकटकारैर्वकटकारा आहुतिभिरा हुतयो मे कामान् समृदयन्तु भूः स्वाहा लो मानि प्रयतिर्म त्वाम् आनतिरागतिः मा <coughs> उपनतिर्ति मज्जामानतिः यद्देवा देवमाभयम् अग्निर्मातस्मादेन सुविश्वान्मुञ्च सहा यदिवा यदीनमेणाग्निषकृमाभयम् वायुर्मा तस्मादेन सुभविश्वान्मुञ्चतमग्निंहसः जीजाग्रद्यादि स्वप्न एनाग्निश्च कृमाभ्वयम् सूर्यो मा तस्मादेन सुभविश्वान्मुञ्चतुमग्निर्हसः यद् जद ग्रामे जदरण्ये यत्सभायां जद जद जदिन्द्रिये जच्छूदरे जदर्जे जदेनश्च कृमाद्वयं जदे कस्याधि धर्मणि तस्या यदापो अग्न्या इति वरुणेति शपामहे ततु वरुण नो मुञ्च अवभृथनि चुम्बुणनि चेरुरसि नि चुम्बुणः अवदेवैर्देव कृतमेनो यक्ष्यवमर्तैरमथ कृतं पुरु रावणो देवरिघस्पाहि समुद्रे ते हृदयमुत्सवन्तः सन्त्वाभ्यन्तु खलीरुतापः सुमित्रियान् आप ऊघदयः सन्तु दुर्मित्रियास्तस्मै सन्तु ज्योस्मान्वेष्टिजा द्रुपदादिवमुचानः स्मिन्नः स्नातो मलादिव पूतं पवित्रेणवाज्यमापः शुन्धन्तु मैनसहाद्भजन्तः पश्यन्द उत्तरम् देवं देवत्रासूर्जमगन्म ज्योतिरुत्तमम् अपो अद्यान्द्वचारिकरसेन समसुष्महि पयस्वा आगमन्तं मास्रज व्रच सा प्रजया च धनेन च एधोऽस्येधिखिमयि समिदसितेजोषितेजो मयि धेहि समाववृतिपृथिवी समुखाः समुसूर्जा समुविश्वमिदं जगत् वैश्वानर्ज्योतिर्भूयासं विभुवन् कामानि विष्णवै भूः स्वाहा अभ्याददामि समिरमग्ने व्रत पते त्वयि व्रतञ्च श्रद्धाञ्चोपयि विन्दे त्वाधिक्षितोऽहम् चतुर्ब्रह्म चक्षत्रञ्च सम्यञ्चौचरतः सह पुण्यं व्रत्नेकं च देवाः सुभाग्निनाम् यत्रेन्नश्च वायुश्च सम्यञ्च उचरतः स तल्लोकं पुण्यं रज्जीकन्यत्री विद्यते अग्निषु ना ते अग्निषुः पृच्छताम् परुखापरुः गन्धस्ते सो मम वतु रसो अच्युता सिञ्चन्ति परिखिञ्चन्ति छिञ्चन्ति पुनन्ति च सुरायैव मदे किन्त्व वदति किन्वः धानावन्तं करम् अपूपवन्तमुखिनम् इन्द्र प्रातृजुस्वनाः बृहदिन्द्राय गायत मरुतो वृत्रहन्त मम् जेन ज्योतिरजनयन् हृता वृधो देवन् देवाय जाग्रिभितवृजो अद्रिविषुदग्नि सोमं पवित्र आनय पुना हीन्द्राय पातवे जोभूतानामधिपति यस्मिन् लोका अधिश्रिताः ज महतो महांस्तेन गृह्णामि त्वामहं मयि गृह्णामि त्वामहम् उपयाम गृहीतोस्य शुभ्यान्त्वा सरस्वतीयत्वेन्द्रायत्वा सुत्राम्ण एघते ज्योनिरशुभ्यान्त्वा सरस्वतीयत्वेन्द्राय त्वा प्राणपामे अपानपाश्चक्षुपाः श्रोत्रपाश्च वाचो मेयं विश्वजो मनसो विलायकः अश्विन कृतस्य ते सरस्वती कृतस्य इन्द्रेण उपहूत उपहूतस्य वक्षयामि समिद्ध इन्द्र उह सामनीके पुरोरुचा पूर्वकृद्वा वृधानां त्रिभृदेव यस्त्रिंशता व्रज्रवावृजघानं वृत्रं विदुरो नराशग् सह प्रतिशूरो मिमानस्तनूनपा प्रति यज्ञस्य धामो गोविर्वपावन्मधुना समञ्जन् निरण्यश्चन्द्री जयति प्रचेताम् ईडितो देवैर्हरिवाम् अविष्टिराजुवानो हविखाश्रद्धमानः पुरन्दरो गोत्रविर्वज्रबाहु राजातु जुकाणो बर्हि हरिवन्न इन्द्रः प्राचीनप्रदिशा पृथिव्याः कुरुप्रथाः प्रथमान् दुश्यो न मारित्यै रक्तं वसुभि सजोगाः इन्द्रन्दुरः कवख्यो दावमान वृक्षाणञ्जन्तु जनयः सुपत्नीः द्वारो देवीरभितु विश्रयन्धाग्निसुवीरं वीरं प्रथमाना महोभि ूकासा नक्ता बृहतीं बृहन्तं पयस्वती सुदुघेषु रमिन्द्रं तन्तुन्ततं पेषसा संपयन्ती देवानन्देवं जयतः सुरुक् मे देव्यामिमानामनुखः पुरुद्रा हूता प्रथमा सुवाचा मूर्धन्यस्य प्राचीनं ज्योतिरभिघवृधातः देवी ले वर्धमाना सरो दी जनयो न पत् अछिंदम पयसा सरस्वती देवी भारतीय विश्वतूर्ति मीद्रा वृष्णे पाको चिष्जसेसे पुरू वृखाजन्ूरी रेता मूर्धन्यजन सुब बृहस्पतिरवसृष्टो न पाशयस्मन्यासमञ्जन्षमिता न देवः इन्द्रस्याः स्वदाति यज्ञं मधुना घृतेन स्तूकानामिन्दुं प्रति शूर इन्द्रो वृक्षाय माणुवमृगवस्तुराखाटो स्वाहा देवा अमृतामादयन्ताम् आयात्विन्द्रो वस उप न इय स्तुतः स दमानस्तु शूरात् वा वृदानस्तविकीर्यस्य पूर्वीर्जोर्नक्षत्रमभिभूति पुख्यात् हा न इन्द्रो दूरादान आसादविष्टिकृदवशेजा सद्गुरात् ओजिष्ठेभीन्द्रपतिवज्रबाहुः सङ्गे समृपणिः पृतन्युन् आन इन्द्रो हरिवृजा त्वच्छार्वाचीनो वसे राधसे च तिष्ठादिवज्री मघवा विलक्षीमञ्जज्ञमनुनो वाजसातौ प्रातारमिन्द्रमवितारमिन्द्रहवे हवे सुहव शूरमिन्द्रं भजामि शकरं पुरुहूतमिन्द्र पुस्तितो मघवाधात्मिन्द्रः इन्द्रः सुतरामास्व वाँ अवोभिः सुरेणी को भवतु विश्ववेदाः भारतान्वेखोऽभयं कृणोतु सुवीरजस्य पतयः स्याम तस्य वयं सुमतौ जन्यस्यापि भद्रे सौ इन्द्रो अस्मि आराक्षिद्वेखः सनुतर्जुयोतु आमन्द्रैरिन्द्र हरिभिर्जाहि मयूररोमभिः मात्वा केचिन्यन्नपाशिनोति धन्वेवता एवेदिन्द्र मृगणं वज्रबाहुं वसिष्ठासोऽभ्रजन्तकैः सनुस्रुतो वीरबद्धातुको मध्यूयं पातु समस्तिभिः सदा नः समिद्धो अग्निरश्विता दप्तो घर्मो विरट्सुताम् दुभे धेनुः सरस्वती सोमग् शुकरमिहेन्द्रियम् तनूपाभिगजासुतेष्विनो वा सरस्वती वधवारजाग्सीन्द्रियमिन्द्राय पथिभिवहन् इन्द्रायेन्दु सरस्वती नराशगुंसेन हुम् अधातामश्विनामधुभे खजं भि गजासुते आजुह्वाना सरस्वतीन्द्रायेन्द्रियाणि वीर्जम् इडाविरश्विना विघग् वी सपुरजग् सज्ञुः अश्विना न मुचे सुतज्ञ शुक्रं परिसृता सरस्वतीतमा वरदपरिहिखेन्द्राय पातवे कव ह्यो न व्यजस्वतीरश्विद्रान्न दुरो दिशः इंद्रो नरोदसी उुे काम सरस्वती उगाश्ना दिवेन्द्र संजानाने सुपेश सरस्वत पात नो अश्विना दिवा पा सरस्वती दैव्यातुते तिस्रेधा सरस्वत्यश्विना भारतीडा तीव्रं परिसृतासोममिन्द्राय सुखमुर्मदम् अश्विनाभे खजं मधुभे खजं नः सरस्वती इन्द्रे त्वष्टायशः श्रियघूप रूपमधुः सुते ऋतुथेन्द्रुवनस्पतिः शशमानः परिसृताम् लीलावश्विभव्याम मधु दुहे धेनु सरस्वती भूभिन्न सोमश्विनाश परसुता शरस्वतिया स्वाहेन्द्र सु मधुश्नांद्रिय न मुचे धिया सरस्वती आशुक्रवासुराध्वसुमींद्राजश्विना सरस्वती हिखेन्द्रमर्धय स विभेद्वलं मघन्नमुचा वा सुरे शा तमिन्द्रं पशवः श चाश्विनो वा सरस्वती दधानाभ्यनु गतः विगाजन्य इन्द्रियैः जन्द्र इन्द्रियं दधुः सवितावरुणो भगः ससुतरामाः विगपत्रजमानायतिष्ठत् सवितवरुणो ददद्यमानाय दासुखे आदत्तनमुचैर्वसु सुत्रामाबलमिन्द्रियं वरुणः क्षत्रमिन्द्रियं भगेन सविताश्रियं सुमायशसा बलं दधानमाशतो अश्विनागोभिरिन्द्रियमश्विभिर्जं बलम् हविखेन्द्र सरस्वती यजमानमवर्धयन् ता नासत्यासु केशसा हिरण्यवर्तनी नरा सरस्वती अविखमतीन्द्रकर्म सुनोवत् ताभिघजासु कर्मणा सा सुगा सरस्वती सवृत्रहासतक्रतुरिन्द्राय दधुरिन्द्रियम् युवग् सुरामश्विना नमुचा वासुरे स च विपिपानाः सरस्वतीन्द्रं कर्म स्वावत् पुत्रमिवपितु रावश्विनोभेन्द्रावधुः काव्यैर्दग्नसनाभिः यत्सुराम्यपि वः शचीभिः सरस्वती त्वामगवन्न विष्णुक् यस्मिन्नश्वास रिखवास उक्षणुवशामेका अवसृष्टास आहुताः कीलालपे सोमपृष्ठाय वेधसे हृदा मतिञ्जनय चारुमग्नयेग्नेहविरास्येते शृचिवघृतं वसो महा वाजस निरं रशस्तं देहि यशसं बृहन्तम् अश्विना तेजसा चक्षुः प्राणेन सरस्वतीयव्यजं वाचेन्द्रो बलेनेन्द्राय दधुरिन्द्रियम् गोमधूगुणा सत्याश्वावद्यातमश्विना वर्तिरुद्रा नृपाठ्यं नयत्परो नान्तरादध रेखद्रेखर्ण्वसु तान ोणवश्विनारं विषङ्गसन्दृशं विष्णवरिवोविदं पावका न सरस्वतीयव्याजेभिर्वाजिनीवति यज्ञं वष्टुधिया वसु चोदयित्रीषु नृतानां चेतन्तीषु मतीनां यज्ञं दधे सरस्वती भो अर्णः सरस्वती प्रचेतयति केतुना जिव विश्वा विराजति इन्द्राया हि चित्रभानो सुता इमे त्वायवः अण्दा पूता सः इन्द्राया हि धिये खितो विप्रजूतः सुतावतः उपब्रह्माणिर्वागता इन्द्रायाहितु जान उपब्रह्माणि हरिवः सुते दर्सुवनश्चना अश्विनापि भवतां मधु सजोखसा इन्द्राः सुरावृत्र राजुखन्ताग् सौम्यां इति विंशतिः